अथ अष्टाशीतितमोऽध्यायः इन्द्र उवाच सर्वाणि कर्माणि समाप्य राजन् गृहम् परित्यज्य वनम् गतोऽसि तत्त्वाम् पृच्छामि न पुत्र केनासि तुल्यस्तपसा याते ययातिरुवाच नाहम् देव मनुष्येषु गन्धर्वेषु महर्षिषु आत्मनस्तपसा तुल्यम् कञ्चित् वासव इन्द्र उवाच यदावमंस्थाः सदृशश्रेयसश्च अल्पीयसश्चाविदित प्रभावः तस्माल्लोकास्त्वन्तवन्तस्तवेमे क्षीणे पुण्ये पतितास्यद्यराजन् ययातिरुवाच सुरर्षिगन्धर्वनरावमानात् क्षयम् गता मे यदि सुरलोकाद्विहीनः सताम् मध्ये पतितुम् देवराज इन्द्र उवाच सताम् सकाशे पतितासि राजन् च्युतः प्रतिष्ठाम् यत्र लब्धासि भूयः एतद्विदित्वा न पुनर्ययाते त्वम् मा वं स्था सदृशश्रेयसश्च वैशम्पायन उवाच ततः प्रहायामरराजदुष्टान् पुण्यान् लोकान् पतमानम् ययातिम् सम्प्रेक्ष्य उवाच सद्धर्मविधानगोप्ता अष्टक उवाच कस्त्वम् युवा वासवतुल्यरूपः स्वतेजसादीप्यमानो यथाग्निः पदस्युदीर्णाम् बुधरान्धकारात् खात्खेचराणाम् प्रवरो यथार्कः दृष्ट्वा च त्वाम् सूर्यपथात् पतन्तम् वैश्वानरार्कद्युतिमप्रमेयम् किन्नु सर्वे वितर्कयन्तः परिमोहिताः स्मः दृष्ट्वा च त्वान्धिष्ठितम् देवमार्गे चक्रार्कविष्णुप्रतिमप्रभावम् अभ्युद्गतास्त्वाम् अभ्युद्गतास्त्वाम् वयमद्य सर्गे तत्त्वम् प्रपाते तव जिज्ञासमानाः न चापि त्वाम् धृष्णुमः प्रष्टुमग्रे न च कस्य त्वम् वाकिन्निमित्तम् त्वमादाः भयम् तु तेभ्ये तु विषादमोहौ त्यजाशु चैवेन्द्र समप्रभाव त्वाम् वर्तमानम् हि सताम् सकाशे नालम् बलहापि शक्रः सन्तः प्रतिष्ठा हि सुखच्युतानाम् सताम् सदृशेषु सत्सु प्रभुर प्रतपने भूमिरावपने प्रभु हो, प्रभु सूर्य प्रकाशित्वे, प्रकाशित् सताचाभ्यगत प्रभु महाभारते आदिपर्ण संभवपर्वणि उत्तर याते अष्टीतिमोध्या